हरि ओम् श्री सीतारामचन्द्राभ्य नमः अथ श्रीमद् वाल्मीकि रामायणे युद्धकाण्डे शततमः सर्गः श्रीराम रावणयोर्युद्धम् रावणस्य शक्त्या लक्ष्मणस्य मूर्छा रावणस्य युद्धात् पलायनं च तस्मिन् प्रतीहते श्रेतु रावणो राक्षसाधिपधं च द्विगुणं चक्रे क्रोधाचास्त्रम् अनन्तरं वयेनैवीतं रौद्रम् अन्यदस्त्रं द्युतिः उत्स्रष्टुं रावणो भीमं। राघवाय प्रचक्रमे ततः शोलानि निश्चेरु गदाश्च मुसलानि च कार्मुकादीप्यमानानि वज्रसाराणि सर्वशः मुद्गराय कूटपाशाश्च दीप्ताशेन तथा निष्पेतुर्विधा तीक्ष्ण वाता इव वा युगक्षये तदस्त्रं राघव श्रीमान् उत्तमास्त्रविधाम्बरः जघान परमवास्त्रेण गान्धर्वेण महाद्युतिः तस्मिन् प्रतिहते श्रेतु राघवेण महात्मना रावण क्रोध ताम्राक्ष सौरमस्त्रमुदीरय ततश्चक्राणि निष्पेतु भास्वराणि महान्ति च कार्मुकाद् भीमवेगस्य दश ग्रीवस्य धीमतः तैराशि गगनं दीप्तं सम्पतद्भिः दी समन्ततः पतद्भिश्च दिशो दीप्ता चन्द्रसूर्य गृहैव तानि चिच्छेदबाणो भैः चक्राणि तु च राघवः आयुधानि चित्राणि रावणस्य च मोमुखे सहस्रम् तु हतम् दृष्ट्वा रावणो राक्षसाधिपः निर्व्याध दश भीवाणी रामम् सर्वेषु मर्मसु सविद्धो दश भीवाणी महाकार्मुकनिसृते रावणेन महतेज न प्राकम्पत राघवः ततो विव्याधरात्रेषु सर्वेषु समितिञ्जयः राघव तु सुसंक्रुधो रावणं बहुभीचरै एतस्मिन्नन्तरे क्रुद्धो राघवस्यानुजो बलिः लक्ष्मण सायकान् सप्त जग्राह परवीरः तैः सायकै महावेगै रावणस्य महाद्युतिः द्वयं मनुष्य शीर्षन्तु तस्य चिच्छेद नैकरा सारथे चापि बाणेन शिरोज्वलितकुण्डलम् जहार लक्ष्मण श्रीमान् नैऋतस्य महाबलः तस्य बाणै सु चिच्छेद धनुर्गजकरोपमम् लक्ष्मणो राक्षसेन्द्रस्य पंचभ निशित सदा नील मेघ निभा से सदश्न पर्वतम जघान्लुत गवण सेभीषण हताश्वा तो तदा वेगा अवप्लुत महारा कोप्माह भ्रातर प्रतिवण तथ शक्ति महाशक्ति प्रदीप्तां वशिनीम् इव विभीषणाय चिक्षेप राक्षसेन्द्रः प्रतापवान् अप्राप्तामेव ताम्बाणै त्रिभीषिच्छेदलक्ष्मण अठोदतिष्ठदसन्नो वनराणां हारणे सम्पपात त्रिधा छिन्ना शक्ति काञ्चन मालिनी सविस्फुलिङ्गा बहोल्केव दिवच्युता ततः वितततरं कालेनापि दुरासदा जग्राह विपुलां शक्तिम् दीप्यमानां स सा वेगिता बलवता रावणेन दुरात्मना जज्ज्वाल सुमः तेजः समप्रभा समप्रभा एतस्मिन्नन्तरे वीरो लक्ष्मणस्थं विभीषणम् प्राणसंशयमापन्नम् पूर्णम् अभ्येव पद्यते तं विमोक्षयितुं वीर चापमायम्य लक्ष्मणः रावणम् शक्तिहस्तं वै शरवर्षै अवाकिर कीर्यमाणैश्चरोघेण विसृष्टेन महात्मना न प्रहर्तुम् मनश्चक्रे विमुखीकृत विक्रमः मोक्षितं भ्रातरं दृष्ट्वा लक्ष्मणेन स रावणः लक्ष्मणाभिमुखस्तिष्ठन् इदम् अब्रवीत् मोक्षितस्ते बलश्लाघिन् यस्मादेवम्बिभीषणः विमुच्य राक्षसं शक्ति त्वयीयं विनिपात्यते एषा ते हृदयं भित्त्वा शक्ति लोहितलक्षणा मद्बाहु परिगोतृष्टा प्राणानादाय यास्यति एवम् उक्त्वा तां शक्ति अष्टघण्टाम् मयेन माया भीताम् अमोघां चतुर्घातिनी लक्ष्मणाय समुद्दिश्य चरन्तीमिव तेजथा रावण परमकृध शिक्षेप च न च साक्षिप्ता भीमवेगेन वज्राश निभ्ये पतवेगात् लक्ष्मणं ऋणमूर्धनि तामनुव्यान शक्तिम् आपतन्तीं स राघव स्वस्य स्तु लक्ष्मणा एति मोघा क्रुद्धेनाशिविशोपमा मुक्ताशूरस्य भीतस्य लक्ष्मणस्य ममज्जसा न्यपतेत् सा महावेगा लक्ष्मणस्य महोरसी जिह्वे वोरगराजस्य दीप्यमाना महाद्युतिः ततो रावणवेगेन सुदूरम् अवगाढय शक्त्या पपाते भुवि लक्ष्मणः तैरवस्थं समेपस्थो लक्ष्मणम् प्रेक्ष्य राघवे भ्रातृस्नेहान् मया पेजा विषण्डे हृदयो भवेत् स मुहूर्तम् इव ध्यात्वा पाष्पर्यकुलेक्षणः बभूव संरब्धतरो युगान्त इव पावकः न विषादस्य कालोऽयम् इति सञ्चिन्त्य राघव, चक्रे सुमलं युद्धम् रावणस्य वधे धृतः सर्वयत्नेनमता लक्ष्मणं परिवीक्षते स दर्शे तदो शक्त्या भिन्नम् हवे लक्ष्मणं रुधिरादिग्धम् सपन्नगं विवाचलम् तामपि प्रहितां शक्तिम् रावणेन लीयत यत्नतस्यै हरिश्रेष्ठा न शे कौरवमर्दितुम् अर्जिता चैव बाणो वै ते प्रवेकेण रक्षताम् सौमित्रे सा विनिर्भिद्य प्रविष्टाय धरणीतरम् तां कराभ्याम् परमविष्य रामशक्तिम्भयावहाम् समरे क्रुद्धो बलवान् विचकश्च तस्य निकर्षतः शक्तिम् रावणेन बलीयता चरा सर्वेषु गात्रेषु पातिता मर्म भेदिनः अचिन्तयित्वा तान्दाम् समाकृष्य च लक्ष्मणम् अब्रवीच्च हनुमन्दम् सुग्रीवं च महाकपिम् लक्ष्मणम् पारिवार्यैवम् तिष्ठं वा नरोत्तमः पराक्रमस्य कालोयं सम्प्राप्तो मे चिरेप्सितः पापात्मायम् दशग्रीवो बध्यताम् पाप निश्चयः काङ्क्षितम् चातकस्य घर्माघदर्शनम् अस्मिन् मुहूर्ते न चिरात् सत्यम् प्रति शृणोमि शृणोमि वा रावणम् रामम् वा जगद्रक्षथ राज्यनाशं वनेवासं, वने वासं दण्डके परिधावनम् वैदेह्यश्च परामर्शो रक्षोभिश्च समागमम् प्राप्तम् दुःखम् हरघोरम् केशश्च निर्योपमः अद्य सर्वमम् चक्षे नत्वा रावणम् ऋणे यदर्थं वानरं सैन्यं, समानीतम् इदं मया सुग्रीवश्च कृतो राज्ये निहत्वा वालिनम् ऋणे यदर्थं सागरक्रान्त सेतुबद्ध सागरे स्वयम् मध्य रणे पाप चक्षुर्विषयमागतः चक्षुर्विषयमागत्य नायं जीवितुमर्हति दृष्टिं दृष्टि तर्पस्य मम रावणः यथा वै, वै यस्य दृष्टिं प्राप्तो भुजङ्गमहे सुखम् पश्यतु दुर्धर्षा युद्धं वा आसीनः पर, पर्वताग्रेषु ममेदम् रावणस्य च अद्य पश्यन्तु रामस्य रामत्वं मम संयोगे स देवा सर्षिचारणः अद्य कर्म करिष्यामि यल्लोकाः स चराचरः स यावद् भूमिः धरिष्यति समागम्य सदा लोके यथा युद्धं प्रवर्तितम् एवम् उक्त्वाशितै बाणे तत्त काञ्चन भूषणे अजघन रणे रामो दश ग्रीवम् समाहितः तथा नाराचै मुसलै चापि रावणः अभ्य वर्ष तदा रामम् दाराभिरिवतो दारा यदहे रामः रावणमुक्तानाम् अन्योन्यम् अभिधिघ्नताम् वराणां च शराणां च बभूव तुमुलस्वनः विच्छिन्नाश्च विकिरणाश्च राम रावणयो शरा अन्तरिक्षात् निपेतो धरणीतले तयोर्जातल निर्घोषो राम रावणयोर्महं प्रासनः सर्वभूतानां सम्भोवाद्भुतोपमः स्वकीर्यमाण शरजाल वृष्टिः महात्मना दीप्तधनुमतादिता बयपुद्रव समेत रावण यथा नीलेना बल इत्यामदरायणे वाल्मीक अदे शतत सर्ग श्री सीतामचंद्रारणमस्तु